sahastrani sahasrashasahasrashasahasrani sahasrani sahasrashoye sahasrajasahasrani sahasrani sahasrashoye सहस्रशो ये ये सहस्रशः सहस्रशो ये रुद्रारुद्राये सहस्रशः रुद्राः सहस्रश इति सहस्र शः ये रुद्रा रुद्राये ये रुद्रा अध्यधिरुद्राये ये रुद्रा <aning> धि रुद्रा अध्यधिरुद्रा रुद्रा अधिभूम्याम्भोम्यामधिरुद्रा रुद्रा अधिभूम्या अधिभूम्याम्भोम्यामध्यधि भूम्याम् भूम्यामिति भूम्या तेषाकुम् सहस्रयो जने सहस्रयो जने ते शान्ते शाकुम् सहस्रयो जने सहस्रयोजने वासहस्रयोजने सहस्रयोजने वधन्वानि धन्वान्यवसहस्रयोजने सहस्रयोजने व धन्वानि सहस्रयोजन इति सहस्र योजने अवधन्वानिधन्वान्यवावधन्वानितम् मसितम् मसिधन्वान्यवावधन्वानि तम्मसि धन्वानि तम् मसितम् मसिधन्वानिधन्वानि तमसि तनन्मसिति तन्मसि अस्मिन् महति अस्मिन्महति महत्यस्मिन्नस्मिन्महत्यर्नवेर्नवे महत्यस्मिन्नस्मिन्महत्यर्नवे महत्यर्नवेर्नवे महति महत्यर्नवेःन्तरिक्षेऽन्तरिक्षेर्नवे महति महत्यर्नवेन्तरिक्षे अर्णवेःन्तरिक्षेऽन्तरिक्षेर्नवेर्नवेन्तरिक्षे भवा भवा अन्तरिक्षेर्नवेर्नवेःन्तरिक्षे भवाः अन्तरिक्षे भवा भवा अन्तरिक्षेऽन्तरिक्षे भवा अद्यधि भवा अंतरिक्षे अंतरक्षेक्षे भव अधि अध्यधि भवा भि अधी, अधी, अधी त्यधि नीलग्रीवासितिकण्ठाश्चिति कण्ठा नीलग्रीवानीलग्रीवासिति कण्ठा सर्वास्सर्वासिति कण्ठा नीलग्रीवा इति नील ग्रीवाः शितिकण्ठा सर्वास्सर्वासितिकण्ठाश्चितिकण्ठा सर्वा अधोऽधः सर्वाश्चितिकण्ठाश्चितिकण्ठा सर्वा अधः शितिकण्ठा इति शिति कण्ठाः सर्वा अधोधः सर्वाः सर्वा अधः क्षमाचराः क्षमाचरा अधः सर्वाः अधः क्षमाचराः अधः क्षमाचराः क्षमाचरा अधोऽधः क्षमाचराः क्षमाचरा इति क्षमाचराः नीलग्रीवाश्चिति कण्ठाश्चिति कण्ठा नीलग्रीवानीलग्रीवाश्चिति कण्ठादिवम् दिवगुंसिति कण्ठा नीलग्रीवा इति ग्रीवाः शितिकण्ठादिवम् दिवगुम् शितिकण्ठा आ शितिकण्ठादिवगुम् रुद्रा रुद्रादिवगुम् शितिकण्ठा शितिकण्ठादिवगुम् रुद्राः शितिकण्ठा इति शिति दिवगुम् रुद्रा रुद्रा दिवम् दिवगुम् रुद्रा उपश्रिता उपस्रिता रुद्रादिवम् दिवगुम् रुद्रा उपस्रिताः रुद्रा उपस्रिता उपस्रिता रुद्रा रुद्रा उपस्रिताः उपस्रिता इत्युप ये वृक्षेषु वृक्षेषु ये ये वृक्षेषु सस्पिञ्जरासस्पिञ्जरा वृक्षेषु ये वृक्षेषु सस्पिञ्जराः वृक्षेषु सस्पिञ्जरासस्पिञ्जरा वृक्षेषु वृक्षेषु सस्पिञ्जराणि लग्रीवानीलग्रीवास्सस्पिञ्जरा वृक्षेषु वृक्षेषु सस्पिञ्जराणि लग्रीवाः षिञ्जरानि लग्रीवाणी लग्रीवासष्पिञ्जराषस्पिञ्जरानिलग्रीवा विलोहिता विलोहितानीलग्रीवास्षस्पिञ्जराषस्पिञ्जरानीलग्रीवा विलोहिताः नीलग्रीवा विलोहिता विलोहिता नीलग्रीवानीलग्रीवा विलोहिताः नीलग्रीवा इति नीलग्रीवाः विलोहिता इति वि लोहिताः ये भूतानाम् भूतानाम् ये ये भूतानामधिपतयोधिपतयो भूतानाम् ये ये भूतानामधिपतयः भूतानामधिपतयोधिपतयो भूतानाम् भूतानामधिपतयो विशिखासो विशिखासोऽधिपतयो भूतानाम् भूतानामधिपतयो विशिखासः अधिपतयो अपतयो विशिखासो विशिखासिपतिखास कपन कपनो विशिखासोधिपतपत कपन पतयः विशिखासः कपर्दिनः कपर्दिनो विशिखासो विशिखासः कपर्दिनः विशिखास इति वि शिखासः कपर्दिन इति कपर्दिनः ये अन्नेष्वन्नेषु ये ये ये अन्नेषु विविध्यन्ति अन्नेषु विविध्यन्ति विविध्यन्त्यन्येषु विविध्यन्ति पात्रेषु पात्रेषु विविध्यन्त्यन्येषु विविध्यन्ति पात्रेषु विविध्यन्ति पात्रेषु पात्रे चु पात्रे वि वि पात्रे पात्रे विविध्यन्ति पात्रेषु पिबतफ पिबतफ पात्रेषु पात्रेषु पिबतो जनाने जनाने पिबतः पात्रेषु पात्रेषु पिबतो जनान् पिबतो जनान् जनान् पिबतः पिबतो जनान् जनानिति जनान् ये पथाम् पथाम् जेजे पथाम् पथिरक्षयः पथि रक्षयः पथाम् जे ये पथाम् पथिरक्षयः पथाम् पथिरक्षयः पथि रक्षयः पथाम् इलभृदाः पथि रक्षयः पथाम् पथाम् पथिरक्षय अलभृदाः पथिरक्षय अलभृदा अलभृदाः पथिरक्षयः पथि रक्षय अलभृदाय व्युधो यव्युध अलभृदाः पथिरक्षयः लबृदुध पथिक्षय पथि रक्षलृद्युथो युधलदुध युधति युध ये तेर्थानि तेर्थाणि ये ये तेर्थाणि प्रचरन्ति प्रचरन्ति तेर्थानि ये ये प्रचरन्ति तीर्थाणि प्रचरन्ति प्रचरन्ति तीर्थानि तीर्थाणि प्रचरन्ति सृकावन्तसृकावन्तः स्रकावंता, प्रचरन्ति तीर्थानि तीर्थाणि प्रचरन्ति सृकावन्तः प्रचरन्ति सृकावन्तसृकावन्तः प्रचरन्ति प्रचरन्तिसृकावन्तो निशङ्गिणो निशङ्गिणसृकावन्तः प्रचरन्ति प्रचरन्ति सृकावन्तो निशङ्गिणः प्रचरन्ति प्र चरन्ति सृकावन्तो निशङ्गिणो निषङ्गिणः सृकावन्तःसृकावन्तो निशङ्गिणः सृकावन्त इति सृका वन्तः निशङ्गिण इति निसङ्गिणः य एतावन्त एतावन्तो ये एतावन्तश्च चैतावन्तो येय एतावन्तश्च एतावन्तश्च चैतावन्त एतावन्तश्च भूयागुंसो भूयागुंसश्चैतावन्त एतावन्तश्च भूयागुंसः च भूयागुम् सोभूयागुं सस्त च भूयागुंसस्त च भूयागुंस्त च भूयागुं सस्त भूयागुंसस्त च भूयागुं सोभूयागुं सस्त दिशो दिशस्त भूयागुम् सोभूयागुं सस्त दिशः च दिशो दिशश्च च दिशो रुद्रा रुद्रादिशश्च च दिशो रुद्राः दिशो रुद्रादिशो दिशो वितस्थिरे वितस्थिरे रुद्रादिशो दिशो वितस्थिरे रुद्रा वितस्थिरे वितस्थिरे रुद्रा रुद्रा वितस्थिरे वितस्थिर इति वि तस्थिरे तेषाकुम् सहस्रयो जने, जने ते ते सहस्रयो जने, जने ते शान्तेशाकुम् सहस्रयो जने वा सहस्रयोजने तेषान्ते शाकुम् सहस्रयो जने व सहस्रयोजने वा वसहस्रयोजने सहस्रयोजने बधन्वानि धन्वान्यवसहस्रयोजने सहस्रयोजने बधन्वानि सहस्रयोजन इति सहस्र योजने अवधन्वा निधन्वान्यवा तन्मसीति तन्मसि नमो रुद्रेभ्यो रुद्रे ्यो नमो नमो रुद्रेभ्यो ये ये रुद्रेभ्यो नमो नमो रुद्रेभ्यो ये रुद्रेभ्यो ये ये रुद्रेभ्यो रुद्रेभ्यो ये पृथिव्यां पृथिव्यां ये रुद्रेभ्यो रुद्रेभ्यो ये पृथिव्याम् पृथिव्यां पृथव्यां ये ये पृथिव्यां ये ये पृथिव्यां ये ये पृथिव्याम् ये पृथिव्याम् ये ये पृथिव्याम् पृथिव्याम् ये ये पृथिव्याम् पृथव्यां ये नरिक्षे ये antarikshe antarikshe ye ye antarikshe ye ye antarikshe ye ye antarikshe ye ye antarikshe ye ye hem antarikshe antarikshe antarikshe ye divi diviye hem antarikshe antarikshe divi ये दिवि दिवि ये येषां येषा दिवि ये ये दिवि येषा दिवि येषां येषान् दिवि येषामन्नमन्नम् येषाम् येषामन्नम् वातो वातोऽन्नम् येषाम् येषामन्नम् वातः अन्नम् वातो वातोऽन्नमन्नम् वातो वर्षम् वर्षम् वातोन्नमन्नम् वातो वर्षम् तो वर्षम् वर्षम् वातो वातोषमिष इषभो वर्षम् वातो वातोमिष वः इषभोस्तेभ्यस्तेभ्य इषभो वर्षम् वर्षमिषभस्तेभ्यः षवस्तेर्भ्यस्तेभ्य इषव इषभस्तेभ्यो दश दशतेभ्य इषव दश दशतेर्भ्यस्तेभ्यो दश प्राचे प्राचेर्दशतेभ्यस्तेभ्यो दश दशप्राचे प्राचेर्दशदशप्राचेर्दशदशप्राचेर्दशदशप्राचेर्दश प्राचेर्दशदशप्राचे प्राचेर्दशदशप्राचे प्राचेर्दशदशप्राचेर्दश प्राचेर्दशदशप्राचे प्राचेर्दशदशप्राचेर्दश दक्षिणा दक्षिणा दशप्राचे प्राचेर्दशदश दक्षिणा दश दक्षिणा दक्षिणा दश दश दक्षिणा दश प्रतिजी प्रते दशो दीजीरुदि चेर्दश दशो दी जेर्दश दशो दीजेर्दश दशो दीचेर्दश उदी चेर्दश दशो दीजे रुदि दशदशोर्ध्वास्तेभ्यस्तेभ्य ऊर्ध्वादशदशोर्ध्वास्तेभ्यः ऊर्ध्वास्तेभ्यस्तेभ्य ऊर्ध्वास्तेभ्यो नमो नमस्तेभ्य ऊर्ध्वा ऊर्ध्वास्तेभ्यो नमः तेभ्यो नमो नमस्तेभ्यस्तेभ्यो नमस्ते ते नमस्तेभ्यस्तेभ्यो नमस्ते नमस्ते ते नमो नमस्ते नो नस्ते नमो नमस्ते तेनो नस्ते तेनो मृडयन्तु मृडयन्तु नस्ते तेनो मृडयन्तु नो मृडयन्तु मृडयन्तु नो नो मृडयन्तु ते ते मृडयन्तु नो नो मृडयन्तु ते मृडयन्तु ते ते मृडयन्तु मृडयन्तु तेयम् यन्ते मृडयन्तु मृडयन्तु तेयम् तेयम् यन्ते ते यन् द्विस्मोद्विस्मो यन्ते ते यन् dvismaha yan dvismo dvismoyam yan dvismoyoyo dvismoyam yan dvismoyaha dvismoyoyo dvismo dvismoyas chatayo dvismo dvismoyas chat yas chatayo yas chatano nastayo yas chatanah नो द्वेष्टिद्वेष्टिनश्च नो द्वेष्टि नो द्वेष्टिद्वेष्टि नो नो द्वेष्टितन्तो नो द्वेष्टितम् द्वेष्टितन्तम् द्वेष्टिद्वेष्टितम्बोभस्तम् द्वेष्टिद्वेष्टितम्बः तम् वो वसन्तम् भोजम्भे जम्भे वसन्तम् भोजम्भे भोजम्भेजम्भे वो भोजम्भे दधामि दधामि जम्भे वो भोजम्भे दधामि जम्भे दधामि दधामि जम् भे जम्भे दधामि दोधोमीति दधामि sahastrani sahasrasa sahasrasa sahasrani sahasrani